अरवत्यञ्जावद् दशकम् प्रासक्रीडै उन्न गोपी जनाय कतितम् नियमावसाने मारोत्सवम् त्वमत साधयितुम् प्रवृद्ध सान्द्रेण सान्द्रमकसासि शिरीकृदा प्रापूरयो मुरलिकाम् यमुना वनान्ते सम्मूर्चनाभिरुदितस्वरमण्डलापि सम्मूर्चयन्तमखिलम् ेणुनादमुपकर्ण्य विबोतरुण्य दत्तादृशम् कमपि चित्तविमोहमापो तागेककृत्यनिरतास्तनयप्रसक्ता कान्तोपसेवनपरा च सरोरुहाक्ष सर्वम् विसृज्य मुरलीरवमोहितास्ते कान्तारदेशमयिकान्ततनो समेत काचिन्निजाङ्गपरिभूषणमाददान वेणुप्रणातमुपकर्ण्य कृतार्थभूषा त्वामागता ननु तदैव विभुक्षिताभ्य कायेव गदा त्वाम् हारिद्वमात्मजगनस्य यक्तं व्यक्तम् बभाषयिव व्यामोहत परूपिरलक्ष निरुबम प्रणयाति बार राजभिषेक विदचिदर काचिद गृहा किल निरेमयंत त्वामेव देवहृदयेषु दृढम् विभाव्य देहम् विदूय परचित् सुखरूपमेकम् त्वामाविशन् परमिमाननुदन्यधन्या जारात्मना न गता परमहंसि गतिम् क्षणेन प्रकाश परमात्मतनुम् कथञ्चित् चित्ते वहन्न अभ्यागता व्रज सुन्दरी बे मुक्तस्मिदाद्रवतन करुणावलोके निःसीमकान्ति जलति स्वमवेक्षमाणो विश्वैककृत्य परमे परमेशरोगान् भज गोपाल भज प्यारी मुरारी नंदलाला